नारदपुराणं उत्तरार्धम् अध्यायम् 53 त्रि ब्रोहिमे ब्रूहि मे यत्पृच्छामि पुरातनम् यथा ताः प्रतिमा पूर्वमिन्द्रद्युम्नेन निर्मिताः केन चैव प्रकारेण तुष्टस्तस्मै समाधवः तत्सर्वं वदमे विप्रश्रोतुं कौतूहलं मम वसुरुव च पुराणं चारुनयने पुराणम् वेदसंमिदम् कथयामि पुरावृत्तं प्रदिमानां च सम्भवम् प्रवृत्ते च महायज्ञे प्रासादे चैवनिर्मिते। चिन्दा तस्य बभुवाधप्रदिमार्थमहर्निशं केनोपायेन देवेशं सर्वलोकविभावनं स्वर्गस्थित्यन्तकर्तारं पश्यामि पुरुषोत्तमं चिन्ताविष्ठो नरेन्द्रस्तु नैवं छेदे दिवानिशं न भुङ्ग्रे विविधान् भोगान्न च स्नानम् प्रसाधनम् शैलजा दाजुजा वापि धातुजा वामहीतले विष्णोर्योग्यास्तु प्रतिमा सर्वलक्षणलक्षिताः ये दैलेवत्रयाणां तु दयितं दै यत् सुरार्चितां स्थापिते प्रीतिमभ्येदि इति चिन्ता परोऽभवत् पञ्चरात्रविधानेन सम्पूज्य पुरुषोत्तमं चिन्ताविष्टो महीपालः संस्तोदुमुपचक्रमे इन्द्रद्युम्न उवाच वासुदेव नमस्तेऽस्तु नमस्ते, नमस्ते मोक्षकारण त्राहि मां सर्वलोकेश जन्मसंसार सागराद निर्मलांशुक सङ्कास्य नमस्ते पुरुषोत्तम सङ्घर्षण नमस्ते स्तुत्राहि मां धरणीधर नमस्ते हेमगर्भाय नमस्ते मकरध्वज हृदिकान्तनमस्तुभ्यं त्राहि मां शम्बरान्तक नमस्ते मेख नमस्ते भक्तवत्सल निरुद्ध नमस्ते स्तुत्राहि वरदो भव नमस्ते विबुधावास नमस्ते विबुधप्रिय नारायण नमस्ते स्तुत्राहिमां शरणागतं नमस्ते बलिनां श्रेष्ठं नमस्ते लाङ्गलायुध नमस्ते विबुधश्रेष्ठ नमस्ते कमलोद्भव चतुर्मुख जगद्धादस्त्राहि मां प्रपितामः नमस्ते नीलमेखाभ नमस्ते त्रिदशार्चित त्रहि विष्णुजगन्नाथ मग्नं मां भवसागरे प्रलयानलसङ्काश नमस्ते दिदिजान्तक नरसिंहमहावीर्यत्राहिमां दीप्तलोचन यथा रसातलाज्जाच्चोर्वी जले मग्नोद्धृदा पुरा तथा महावराक त्वं त्राहि तवांग दुःखसागराद तवाङ्गमूर्तय कृष्ण वरदा संस्तुता मया त्वं चेमे बलदेवाध्या पृथग्रूपेण संस्थिताः अङ्कानि तव देवेश गरुढाद्यास्तथा प्रभो दिक्पालाः सायुधाश्चैव वासवाद्यास्तथाच्युत ये चान्ये तव देवेश भेदा प्रोक्ता मनीषिभिः सर्वे जगन्नाथप्रसन्ना यतलोचना ये वार्चितास्तु दा सर्वे तथा यूयं नमस्कृताः प्रयच्छद वरं मह्यं धर्मकामार्थमोक्षदं भेदास्ते कीर्तिदाये दुहरे सङ्कर्षणादयः तव पूजार्थसम्बद्धास्तदस्त्वयि समाश्रिदाः न भेदस्तव देवेश्च विद्यते परमार्थतः विविधं तव यद्रूपं युक्तं तदुपचारदः अद्वैतं त्वां कथं द्वेदं वक्तुं शक्नोति मानवः एकस्त्वं हिखरे व्यापि चित्स्वभावो निरञ्जनः परमं तव यद्रूपं भावाभाव विभर्जितं निर्लेपं निर्मलं सूक्ष्मं कूटस्तमचलं ध्रुवम् सर्वोपाधिविनिर्मुक्तं सत्तामात्रं व्यवस्थितं तद्देवोऽपि न जानाति कथं जानाम्यहं प्रभो अपरं तव यद्रूपं पीतवस्त्रं चतुर्भुजं शङ्खचक्रगदापाणिं मुकुडाङ्गदधारिणम् श्रीवत्स वक्षसायुक्तं वनमाला विभूषितम् तदर्चयन्ति विबुधा ये चान्ये त्वत्समाश्रयाः देवः सर्वसुरश्रेष्ठभक्ता नामभयप्रद त्राहि मां चारुपद्माक्षमग्नं विषयसागरे नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे त्वामृदे कमलाकान्तप्रसीदमधुसूदन जरव्याधिशतैर्युक्तो नानादुःखैर्निपीडितः हर्षशोकान्वितो मूढकर्मपाश्चैः सुयन्त्रितः पतितोऽकं महारौद्रे कोरे संसारसागरे विषयोकदुष्पारे रागद्वेषसमाकुले इन्द्रियाम् वर्तगभीरे तृष्णाशोकोर्मिसङ्कुले निराश्रये निरालम्बे निःसारेऽत्यन्तचञ्चले मायया मोहितस्तत्र भ्रमामि सुचिरम् प्रभो नानाजातिसहस्रेषु जायमानः पुनः पुनः मया जन्मान्यनेकानि सहस्राण्ययुतानि च विविधान्यनुभूतानि संसारेऽस्मिन् जनार्दन वेदा साङ्गा मया धीदाशास्त्राणि विविधानि च इतिहासपुराणानि तथा शिल्पान्यनेकशः असन्तोषाश्च सन्तोषा सञ्चया मया प्राप्ता जगन्नाधक्षय वृद्ध्युदयेतराः भार्यामित्रस्वबन्धूनाम् वियोगा सङ्गमास्तथा पितरो विविधा दृष्टा मातरश्च तथा मया दुखानि चानुभूतानि मया सौख्यान्यनेकशः प्ताश्च बान्धवा स्वश्रुभ्रातरो ज्ञादयस्तथा मयोषितं तथा स्त्रीणां कोष्ठे विण्मोत्रपिच्छिहे गर्भवासे महादुःखमनुभूतं तथा प्रभो दुःखानि यान्यनेकानि बाल्ये यौवनगर्विते वार्धक्ये च कृषिकेश तानि प्राप्तानि वै मया मरणे यानि दुःखानि गुप्तमार्गे यमालये मया तान्यनुभूतानि नरके यादनाकुले कृमिकीटद्रुमाणां च हस्त्याश्वमृगपक्षीणाम् महिषाणाम् गवां चैव तथान्येषाम् वन उपस्साम् च सर्वेषाम् शूद्राणाम् चैव योनिषु धनीनाम् क्षत्रियाणाम् च दरिद्राणाम् तपस्विनाम् नृपभृत्यानाम् तथान्येषाम् च देहिनाम् गृहे तेषाम् समुत्पन्नो देवचाहम् पुनः पुनः गतोऽस्मि दास्य ताम् नाथ भृत्यानाम् बहुशोधॄणाम् दरिद्रत्वम् च तथागदः हदा मया हतश्चाञ्चैर्हदम् मे खादिता मया दत्तम् मेऽन्यैर्यधान्येभ्यो मया दत्तमनेकशः पितृमातृसुहृद्वर्गकलत्राणाम् कृतेन च अहम् हृष्टो सहृद्दैन्यैश्चाश्रुद्धौता ननो गदः देवतिर्यङ्मनुष्येषु चरेषु स्थावरेषु च न विद्यते च तत्स्थानं न गतः प्रभो कदा मे नरके वासकदा स्वर्गे जगत्पदे कदा मनुष्यलोकेषु कदा तिर्यगदेषु च जलयन्त्रे तथा चक्रे कदा वडनिबन्धने पातितोस्त धोर्ध्वं च कदा मध्ये स्थितत्वह् तथा चाहं सुरश्रेष्ठ कर्मवल्लीं समाश्रितः एवं संसारचक्रेऽस्मिन् भैरवे लोमहर्षणे भ्रमामि सुचिरं कालं नान्दं पश्यामि कर्हि चिद न जाने किं करोम्येष हरे व्याकुलिदेन्द्रियः शोकतृष्णाभिभूतश्च कान्तिशीको विचेतनः इदानीं त्वामहं देवविकलशरणं गतः प्राहि मां दुःखितं कृष्णमग्नं संसारसागरे कृपां कुरु जगन्नाथ भक्तोऽहं यदि मन्यस्ये त्वामृते नास्तिमे मे बन्धुर्यसौ करिष्यति देवत्वाम् नाधमासाद्य नभयम् मेस्ति कुत्रचिद् जीविते मरणचैव योगक्षेमे तथा प्रभो ये तु त्वाम् विधिवदेव नार्चयन्ति नराधमाः सुगदिस्तु कथम् तेषाम् भवेत् संसारबन्धनात् किं तेषां कुलशीलेन विद्यया जीवितेन च येषां न जायते भक्तिर्जगद्धादरि केशवे प्रकृतिं त्वा सुरीं प्राप्य ये त्वां निं दन्तिमोहिताः पदन्ति नरके कोरे जायमानाः पुनःपुनः न तेषां निष्कृतिस्तस्माद्विद्यते नरकार्णवद ये दूषयन्ति दुर्वृत्तास्ते देवपुरुषाधमाः यत्र यत्र भवेज्जन्म मम कर्मनिबन्धनाद तत्र तत्र हरे हरेभक्तिस्त्वयिस्ता दक्षदा सदा आराध्यत्वां परं दैत्या नराश्चान्येऽपि सङ्गदाः अवापु परमां सिद्धिं कत्वां देवनपूजयेद न शक्नुवन्ति ब्रह्माभ्यास्तोदुम् त्वाम् प्रकृतेः परम् यथा चाज्ञानभावेन संस्तुतोऽसि मया प्रभो तत्क्षमस्वा पराधान्ये यदि तेस्ति दयामयि कृता पराधेऽपि हरे क्षमाम् कुर्वन्ति साधवः तस्मात् प्रसीददेवेश भक्त्या स्नेकम् समाश्रिदः स्तुतोऽसि यन्मया देव भक्तिभावेन चेतसा साङ्गं भवतु तत्सर्वं वासुदेव नमोऽस्तु ते यदि श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुरुषोत्तममाहात्म्ये त्रिपञ्चाशत्तमोऽध्यायः ओ